मुद्गलपुराणं खण्डं वन् वक्रतुण्डचरितम् अध्यायं फोर्टीन् गणेशप्रादुर्भावः श्रीगणेशाय नमः शिव उवाच शृणुदेवी प्रवक्ष्यामि यज्जातं चाद्भुतं ततः गणेशमायामोहेन मोहितानां चरित्रकम् शिवस्य वचनं श्रुत्वा विष्णुब्रह्माणमब्रवीद वरं वृणु विरिञ्च त्वां शिवात् पुत्रो भवेदि मे तव पुत्रशिवो जादस्ते न मे पौत्रतां गतः उभयोः सफलं पूर्णं वाञ्छितं जातमद्भुतम् विष्णोर्वचनमाकर्म्य विधिः शङ्करमब्रवीद मम पुत्रो भव त्वं वै वर एष वृतो मया विष्णुनापि तदेवोक्तं तथा वै शङ्करो ब्रवीद तव बालाद्भविष्यामि रुद्रोऽहं त्वं शदो विधे शिवस्य वचनं श्रुत्वा सन्तुष्टौ विधिमाधवौ उच दुःशङ्करं तत्र स्नेहात्तं भावपूर्वकम् विधिवच्छिव पश्यत्वमैश्वर्यं चावयोपृथक् तेन तुष्टौ महादेव भविष्यावो न तयोर्यद्वैश्वरं भावं शिवोऽपि ज्ञानचक्षुषा दृष्ट्वानन्दं जगाम सौ तौ पुनः प्रत्युवाचः भवतोर्महिमानं चापारं पश्यामि शाश्वतं वयं त्रयः समाख्याता ईश्वरास्सर्वतः पराः एतस्मिन्नन्तरे तत्रा जगामस दिवाकरः तेजोराशिः सदात्मा च पृच्छति समाहितः किमर्थं स्मरणं देवामदीयं कृतमादराद तन्मे कथयताद्यत्वगदोऽहं स्नेहदः परं भानोर्वचनमाकर्ण्ये प्रहृष्टास्ते त्रयो भृशम् ऊचुप्रसन्नभावेनैश्वर्यं ते दर्शय प्रभो तेषां श्रुत्वा गिरं सौम्यां दर्शयामासरूपकं तेजोमयमपारं यच्चराचरमयं महत सूर्यस्य तेजसा सर्वे निष्प्रभास्ते त्रयः प्रणष्टदृष्टयो जादा न शेगुर्द्रष्टुमञ्चस ज्ञानदृष्ट्या चदं दृष्ट्वा चराचरतनुं प्रभुम् अपाररूपं भस्वन्तं नदास्तं स्नेहभावतः दर्शयित्वा तथात्मानं सौम्यरूपो यमाभवद तमोचुस्ते त्रयो देवानान्दं ददृशिमप्रभो अस्माकमपि पश्य त्वमैश्वर्यं स्नेहभावतः तेषां तद्वचनं श्रुत्वा रविहृष्टो बभूवः ज्ञानदृष्ट्या रविस्तेषाम् ऐश्वर्यं दृष्टवान् परम् उवाच प्रणदो भूत्वा विस्मितश्चेदसा भृशं भवन्तोऽपि महात्मानो नान्दं पश्यामि सर्वतः युष्माक मैश्वरं दृष्टवान् अहं वयं सर्वेश्वरा सर्वे भगवन्तः सनातनः न्यूनाधिकम् कलामात्रं विद्याते नैव निश्चितम् तस्मिन् क्षणे स्वयं शक्तिरागता मोहिनी परा उवाच तान् प्रसन्ना मे स्मरणं कृतं तामूचुस्ते च चत्वारो देवा स्नेहेन भाविताः दर्शयस्व महादेवी ऐश्वर्यं कीदृशं तव यद्युक्ता सा स्वरूपं तद्दर्शयामास चराचरमयं पूर्णं स्थूलसूक्ष्मादिभिर्युदं दृष्ट्वा रूपं तदीयं वै भ्रान्तास्ते शरणं ययुः नान्दं ददृशिमार्येदे रूपस्य महदः सौम्यरूपा तदा जादातामोचुः पश्य भावतः अस्माकं देवि चैश्वर्यं कीदृशा वयमेव च तेषां वचनमाकर्ण्यज्ञानदृष्ट्या ते स्म पश्यति नान्दं जगाम तेषां वै नदा उवाच स्नेहभावेन नान्दं पश्यामि कुत्रचित् भवन्तोऽपि महात्मान ईश्वराः पूर्णभावदः वयं पञ्चसमानाधानान्तरं दृश्यते क्वचिद् कः समर्थो भवेद्देवो निश्चयो नैव दृश्यते गणेशमायया भ्रान्ता अवदं परस्परम् प्रभुरेकश्च सर्वत्र वेदेवै वै पठ्यते बुधैः प्रभवः पञ्च शास्त्रेषु सम्मताः अदकोपि प्रभुर्भाव्य प्रभुर्भाव्यः स च वै कुत्र वर्तते एवं विवादे सम्प्राप्ते विस्मृतं ज्ञानमाद्यकम् गणेशं चित्तचाञ्चल्या दूर्ध्वं जग्मुःप्रभावदः न किञ्चिद् ददृश्युस्तत्राधो भागे प्रययुस्ततः एवं दशदिशो भ्रान्ताः पश्यन्तस्ते परस्परं न किञ्चिद् ददृश्युस्तत्र स्थिता एकत्रते पुनः योगमार्गेण चित्ते स्वेध्यानं च क्रुक्रमेण च ब्रह्मा भेदस्वरूपं ते रेमिरे योगभावदः एकीभूता इवात्मानः शान्तिम् प्राप्ता स्वभावदः तदस्तान् दर्शयामास योगिध्येयमनुत्तमम् स्वरूपं गणराज्यस्तु हृदये संस्थितं परं चतुर्भुजत्रिनेत्रं तच्छुण्डा दण्ड विराजितम् एकदन्तं शूर्पकर्णं वक्रतुण्डमहोदरं रक्तवर्णं महाकायं सिन्धूरालिप्तमेव च नाभिशेषं किरीडादिनानाभूषणशोभितम् सिद्धि बुद्धियुदंपूर्ण विभूदिदितामणिमणि चधत् हृदय शुभम प्रसन्न वदनम भक्ता हृदा भवस्मतास्ते सुरा प्रिस्तौ शंकर हृदि प्रकटतां गतः तं पप्रच्छ स्वयं शम्भुक् भवान् वदमे मे प्रभो शान्तियोगेन सम्प्राप्तः किं न ब्रह्मपदिः परः कथयस्वमहाभाग त्वां न जानामि तत्त्वदः ओम् तत्सदिदिश्रीमदाध्ये पुराणोपनिषद्दी मौद्गले महापुराणे प्रथमे खंडे वक्र चरिते गणेश प्रादुर्भ नाम चुर्दशोध्याय ओम।